हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे पञ्चदश स्वर्गः इन्द्रजिता विभीषणस्य उपहसनं तं निर्वस्य विभीषणेन संस्कृति स्वकीय समुच्च सम्मते प्रकाशनम् बृहस्पति तुल्यमतेर्वच सन् निशम्य यत्नेन विभीषणस्य ततो महात्मा वचनम् बभाषे तत्रेञ्जिनैरूथ मुख्य किं नाम ते तातकनिष्ठवाक्यम् अनर्थकम् वै बहुभीतवच्च अस्मिन् कुरे योऽपि भ्रमेन्न ददात् सोऽपि दृशम् नैव वदेन्न कुर्यात् सत्वेन वीर्येण पराक्रमेण धैर्येण शौर्येण च तेजसा च एक एकुलेऽस्मिन् पुरुषो विमुक्तौ विभीषण तातकनिशेष किं नाम तौ मानुषराजपुत्रौ अस्माकमेकेन हि राक्षसेन सुप्राकृतेनापि निहन्तु भेतौ शक्य कुतो भीषेशेष भीरो श्रीलोकनाथो ननु देवराज शक्रो मया भूमितलेन विष्ट भयार्पिता चापि दिशप्रपन्ना सर्वे तदा देवगणा समग्र ऐरावतो नैश्वन्नदन्त निपातितो भूमितले मया तु विकृष्य दन्तो तु मया प्रसह्य वित्रासिता देवगणा समग्र सोऽहंसुराणामपि दर्पयन्त दैत्योत्तमानाम् अपि शोककर्ता कथं नरेन्द्रात्मजयोर्नशक्तो मनुष्ययो प्राकृतयो सुवीर्य अथेन्द्र कल्पय च दुरासदस्य महोजस तैर्वचनं निशम्य ततो महाहं वचनम् बभाषे विभीषण शस्त्रभृताम्बधिष्ठे न तात मन्त्रे तव निश्चयोस्ति बालस्वद्याप्यविपक्वबुद्धिः तस्मात् व्याप्यात्मविनाशनाय वचोऽर्थहीनम् बहुविप्रलप्तम् पुत्रप्रवादेन तु रावणस्य तमिन्द्र जिन्मित्रमुखोऽसि शत्रुः यस्यदृशम् भागवतो विनाशम् निशम्य मोहादनुमन्यते त्वम् स्वमेव वध्य च सुदुर्मते च स्वचापि वध्यो मूर्खत्वमञ्चन्त सुदुर्मजिद्बालतया ब्रवीषि को ब्रह्म दण्ड प्रतिमप्रकाशान् अचिस्मत काल निकाशरूपान् सहेतबाणान् यमदण्ड कल्पान् समक्ष मुक्तान् युधिराघवेण धनानि रत्नानि सुभूषणानि वासासि सीतां च रामाय निवेद्य देवीं वसे मराजन्यतशोक इत्याशे श्रीमद् रामायणे वाल्मीकी अधिकारे युद्धकाण्डे पञ्चदश सर्गे श्रीसीता रामचन्द्रार्पणमस्तु